देवीनारायणीयं दशकं ट्वेण्टीवन् सर्वेऽपि जीवानि च कर्मबद्धा ये ते षडाः सन्द्रुहि नस्य पौत्राः तन्निन्दया दैत्यकुले प्रजादाः पुनश्च सप्ताज्जनकेन दैवात् तेनैव ते शौरिसुतत्वमात्रा हताश्च कंसेन तुजातमात्राः श्रीनारदेनर्षिवरेण देविज्ञादं पुरावृत्तमिदं समस्तम् प्राग्दम्पदी चादिति काश्यपौहास्वकर्मदोषेण पुनश्च जातौ तौ देवगी शूर सुतौ स्वपुत्रनाशादिभिर्दुःखमवापतुश्च त्वं देवगी सप्तमगर्भधो वै गृह्णन्द्यनन्दां शशिषुं स्वशक्रिया निवेश्यरोहिण्युदरे धरण्यां मर्त्यो भवेत्यच्युदमादिशश्च प्राक्कर्मदोषात्सुहृन्मखो नः क्रुद्धेन शब्दो भृगुणामुरारिः दयार्ह संसारि आदेवकी गर्भमथाविवेश पूर्णे दुगर्भे हरिरर्धरात्रे कारागृहे देवकनन्दनायाः जज्ञे सुतेष्वष्टमतामवाप्तशौरिर्विमुक्तो निगडैश्च बन्धात् व्योमोऽर्धवाक्येन तवैव बालं गृह्णन्न दृष्ठ खलु गेहबालैः निद्राङ्गदैस्त्वद्विवृतेन शौर्येर्द्वारेण यादो बहिरात्ततोषं त्वं स्वेच्छया गोपकुले यशोदा नन्दात्मजास्वापि दजीवजाले अजायता भक्तजनार्तिहन्त्री सर्वन्नियन्द्री सकलार्तदात्री तव प्रभावाद्वसुदेव एको गच्छन्नभिदो यमुनाम यत्नम् तीर्त्वा नदीं गोकुलमापतत्र दास्या करे स्वन्तनयं तयैव दत्ता मदबालिकान्त्वा मादाय्य सततो निवृत्तः कारागृहं प्राप्य ददौ प्रियायै भवत्पूर्व वदेव बद्धः त्वद्रोदनोद्धापिदगेहबालैर्निवेदितो भोजपदि समेत्य त्वां पादयुग्मग्रहणे न कुर्वन्नधः शिरस्कान्निरगाद्गृहान्दात् सकोधयामास शिलातले त्वाम् सद्यः समुत्पत्त्यकरा दमुष्य दिवि स्थिदा शङ्खगदादिहस्ता सुरैस्तु तव कंसजादस्तवान्तः क्वाप्यविदुरदेशे मा दृह्यतां साधुजनो हितं स्वम् विचिन्तयेत्युक्तवदीतिरोभूः स भो जराट् स्वान्तकनाशनाय सर्वान् शिष्योन्हन्तुमरं बलिष्ठान् वत्साखमुख्यान् सुरान्नियुज्य कृतार्थमात्मानममन्यतोच्चैः कंसोऽस्ति मे चेदसि कामलोभक्रोधादिमन्त्रिप्रवरैस्समेतः सद्भावहन्ता खलु नन्दपुत्रि तन्नाशयत्वच्चरणं नमामि ओ देवी दशकं दशकम् टु श्रियःपदिर्गोमलमूत्रगन्धिन्यस्तप्रभो गोपकुले विषण्णः कृष्णाभिदो वत्सबकादिभिदो रुदन् सदा देविनिनायबाल्यं हैयङ्गवीनं मथितं पयश्च गोपीर्विलज्जः गोरस सचाम्बया घोरसचौर्यचुञ्चुरुलुकले पाशवरेण बद्धः भीमा वने शुभीमात्तपशुष्कगात्रो गाश्चारयन्कण्टकविद्धपादः वन्याम्बुबायी फलमूलभक्षी दिने दिने दिनेग्लानिमवापकृष्णः दैवेन मुक्र स च कोपदास्यादक्रोरनिदो मधुरां प्रविष्टः कंसन्निकत्यापि कदाभिलाषस्तत्रोग्रसेनस्य बभोवदासः दृष्ट्वा जरासन्त च मुम्भयेन स बन्धुमित्रो मधुरां विहाय धावन् कथञ्चिद् बहुदुर्गमार्तः सद्वारकाद्वीपुरं विवेश सरुक्मिणीं जाम्बवदीं च भामा कन्यास्तदा द्वि अष्टसहस्रमन्याः समुद्वहन् सस्मिदनर्मलाभक्रीडा मृगोभूत्सदं वधूनाम् सदस्युवृत्तिस्त्रिदिवाजहार भामानियुक्तसुरपरिजातं सत्या च तं गोवृषवत्सरोषं बद्ध्वा तरौ दुर्वचसाभ्यषिञ्चत् श्रीनारदायातिथयेतया मुनिनाचनीतः ततस्तयास्मै कनकं प्रदाय पुनर्गृहीतस्त्रपयापमौनम् सुदीगृहाद्भीष्मकजासुते सप्रद्युम्ननाम्नीश्वरि शम्भरेण कृते शिशौ निर्मथिताभिमान उच्चैरुद्धं स्वां शरणं प्रपन्नः पुत्रार्थिनीं जाम्बवदीमपुत्रां सतोषयिष्यनुपमन्युषिष्यः मुण्डी च दण्डी च शिवस्य शैले मन्त्रं जपन् घोरतपश्चकार स्वरेण भर्गस्य दशात्मजान् सा प्रासोदसर्वादयिताश्च शौरेः तथैव लब्ध्वा स सुतायुतानि सुखन्न लेभे निजकर्मदोषा चापादृशीणान्धृतराष्ट्रपत्न्याश्चान्योन्यवैरेण कृताहवेषु सर्वे पदाहन्दकुलं यदूनां महत्प्रदग्धं वनमग्निनेव व्याधेषु विद्धो मृतिमापकृष्णः कुशस्थली चाब्धिजलाप्लुताभूत् हा जह्रिरेदस्युभिरेण साष्ठावक्रस्य शापेन यतुस्त्रियश्च एवं हरिकर्मफलान्यभुङ्क्त न कोऽपि मुच्येत च कर्मबन्धाद् दुःखं त्वभक्तस्य सुदुःसखं स्याद् भक्तस्य तेत्तत्सुसखं भवेच्च जानास्य कन्ते पदयोरभक्तो क्तो नो किं वेदिनश्चैव जाने त्वं सर्वशक्ता कुरु मां सुशक्तं शिवे नमस्ते ओम। देवी दशकं दशकम् त्रि रम्भस्य पुत्रो महिषासुरः प्राप्तीव्रैस्तपोभिर्द्रुहिणात् प्रसन्नात् अवध्यदाम् पुम्भिरवाप्यधृष्टो न मे मृदि स्यादिति चव्यचिन्तीत् सचिक्षुराद्यैरसुरैः समेतश्चक्रादि दैवान्युधिपद्मजं च रुद्रञ्च वसन् बलाद्यज्ञः विर्जहार चिरं भृशन् दैत्यनिपीडितास्थे देवासमं पद्मजशङ्कराभ्यां हरिं समेत्या सुरदौष्ट्यमूचुस्त्वां संस्मरन् देवि मुरारिराः सुरा वयन्ते नरणे दिघोरे पराजिता दैत्यवरो बलिष्ठः मत्तो भृशं पुंभिरवभ्यभावान्ननस्त्रियो युद्धविचक्षणाश्च तेजोऽभिरेका भवदीह नश्चेत्सैवासुरान्भीमबलान्निहन्ता यथा भवत्येदरं तथैव सम्प्रार्थयामो संप्रार्थयामो वदुनो महेशी एवं हरौ वक्त्ररि पद्मजादात् तेजो भवद्राजसरक्तवर्णं शिवादभूत्तामसरौप्यवर्णन्निलप्रभं सात्विगमच्युदाच्च तेजांस्य भूवन् विविधा निशक्रमुखामरेभ्यो मिषदोऽखिलस्य संयोगदस्तान्यचिरेण मादस्त्रीरूपमष्टादशहस्तमापुः तत्तु त्वमासीत् शुभदे महालक्ष्म्याख्या जगन्मोकनमोकनाङ्गी त्वम् ह्येव भक्ता भयदानदक्षा भक्तद्रुहाम्भिधिकरी च देवि सद्यस्त्वमुच्चैश्च कृषेष्ठहासं सुराः प्रहृष्टावसुधा च कम्पे चुक्षोभसिन्धुर्गिरयो विचेलोर्दैत्यश्च मत्तो मखिषश्चुकोप त्वां सुन्दरीञ्चारमुखात् स दैत्यो विज्ञायकामी विससर्जदूतम् सचेश्वरीन् दैत्यगुणान् प्रवत्ता त्वान्नेदुकामो विफलोद्यमोऽभूत् प्रलोभनैस्त्वामधदेवशक्रिञ्ज्ञात्वापि वाक्यैरनुनेदुपामः एकैकश्यः प्रेषयति स्म दूदान् त्वां कामिनीं कर्तुमिमेन शेकुः अवेहिमां मां विशानहीनं भारं वहन्दं महिषन्द्विपादं हिंसन्दिमां स्वर्जिधनास्त्वमेव रक्षाकरी मे शुभदे नमस्ते ओ देवी नारायणीयं दशकम् ट्वेण्टि फोर् देवी याष्कलदुर्मुखादिद्यु वीरषु रणे हदेशु सद्वाख्यतस्ता मनुने मोख प्रयत्न महिष्चुप्वा काम खुरपुछनास्त्रशस्त्र भृशं प्रहर्ता गर्जन्विनिन्दन् प्रहसन् धरित्रीं प्रकम्पयंश्चासुरराड्युयोध जपारुणाक्षी मधुपानतुष्टा त्वञ्चारिणारेर्महिषस्य कण्ठं चित्वा शिरो मादस्त्वयानो विपदो निरस्ता अशक्यमन्यैरितमद्भुताङ्गि ब्रह्माण्डसर्गस्थितिनाशकर्त्रीङ्कस्त्वाञ्जयेत् केन कथङ्कुतो वा विद्यास्वरूपासि महेशि यस्मिन् स वै परेषां सुखधः त्वं वर्तसे यत्र सदाप्यविद्यास्वरूपिणी सत्त्वधमः पशु स्यात् कृपाकडाक्षास्तव देवि यस्मिन् पदन्ति तस्यात्मजवित्तदाराः यच्छन्ति सौख्यं न यस्मिन् त दुःखं ददतेऽ्य पश्याम नित्यन्तवरूपमेतत्कथाश्च नामानि च कीर्तयाम न मामूर्ध्ना पदपङ्कजेते स्मरामकारुण्यमहाप्रवाहं त्वमेव मादासि दिवौकसान्नो नान्याद्वितीया हि ददानदक्षा अन्ये सुधा न रक्षिदानस्त्वधृते महेशि कत्वं वयं क्वेति विचिन्त्य सर्वं क्षमस्व नो यदा यदानो विपदो भवन्ति तदा तदा पालय इति वस्तु त्रिदशेषु सद्य कृपाश्रुनेत्रैव तिरोदधाध तदो जगद्देवि विभूदिपूर्णं बभूव धर्मिष्टसमस्तजीवम् त्वां संस्मरेयन्न च वा स्मरेयं विपत्सु मा विस्मर मां विमूढम् रुदन् बिडालार्भगवन्न किञ्चिच्चक्नोमि कर्तुं शुभदे नमस्ते ओ दशकम् दशकं ट्वेण्टि फैव् अधामराशत्रुविनाशतृप्ताश्चिराय भक्र्या भवदीं भजन्तः मन्दी भवद्भक्तिहृदक्रमेण पुनश्च दैत्याभिभवं समीयुः शुम्भो निशुम्भश्च सहोदरौ स्वैफ़् प्रसादितात्पद्मभवात्तपोभिः स्त्रीमात्रवध्यत्वमवाप्य गुरोपदेशाद्धिमाद्रिमाप्ता नुनु वुसुरास्त्वां तेषां पुरश्चाद्रिसुता विरासी स्नातुं कदा सा किल देवनद्यां तद्देहकोशात्त्वमजाप्रजादायतः प्रसिद्धा खलु कौशिकीति महासरस्वतनाजसी शक्तिसे चिमाद्रिशृषु मनोहरांगी सिंहाधिूा मृदुगानलोला श्रोत्रण नेत्रण्य देश भाजाचकर्षिधाष्टा दशबाकुयुक्ता विज्ञाय शुम्भ किल दूदवाक्यात् त्वां मोहनाङ्गीन्दयिदाञ्चिकीर्षुः त्वदन्तिके प्रेषयति स्म दूदा नेकैकशस्निग्धवचो विलासान् त्वां प्राप्यते कालिकया समेधामेकैकशः शुम्भगुणान् प्रभाष्य पत्नी भवास्येदि कृतोपदेशास्तप्राधिकुल्यात् कुपिता बभूवुः शुम्भाज्ञयाधोम्रविलोचनाख्यो रणोऽद्यधक्कालिकयाहदोऽभूत् चण्डं च मुण्डं च निहत्य काली, का काली त्वत्पालजात्तध्रुधिरं पपौ चामुण्डिके दिप्रदिदा ततः सा त्वां रक्तबीजोधयुयुत्सुराव यद्रक्तबिन्दुद्भवरक्तबीजसङ्घैर्जगद्व्याप्तमभूदशेषं ब्रह्मेन्द्रपाश्यादिगदेवशक्तिकोट्योरणञ्चक्रुररादिसङ्घैः तत्सङ्करं वर्णयितु न शप्तसहस्रजिह्वोऽपि पुनः किमन्ये रणेधिकोरेविवृता नना सा काली स्वजिह्वां खलु चालयन्ति त्वच्छस्त्रकृत्ताखिलरक्तबीजरक्तं पपौ गर्जनभेददैत्या त्वया निशुम्भस्य शिरो सुम्भस्य शुम्भस्य चान्दे अन्ये सुरास्त्वां शिरसा प्रणम्य पातालमापुस्ततनुग्रहेण हगेषु देवारिपुषु प्रणम्य त्वान् तुष्टुवुस्वर्गमगुः पुनश्च ते पूर्ववद्यज्ञहविर्हरन्दो भूमा वर्षं च हृषुश्चमर्त्याः माधर्मदीये हृदि सन्धिदम्भदर्पाभिमानाद्यसुरा बलिष्ठाः निहत्य मादा मम दे देवीनारायणीयं दशकं ट्वेण्टिसिक्स् राजापुरासीत्सुरथाभिधानस्वारोचिषे चैत्रकुलावतं सः मन्वन्तरे सत्यरथो वदान्यः सम्यक् प्रजापालनमात्रनिष्ठः वीरोऽपि दैवात्समरे सकोलाविध्वंसिभिः शत्रुबलैर्जितः सन् त्यक्त्वा स्वराज्यं वनमेत्यशान्तं सुमेधसं प्रापमुनिं शरण्यम् तपोवनर्भयमावसन्तृच्छायाश्रितः स एकताराज्यगृहादिचिन्दा पर्याकुलत्कञ्चिदपश्यदार्थं राजा तमोचेत् सुरधोऽस्मि नाम्ना जितोरिभिर्भ्रष्टविभूदिजालः गृहादिचिन्दामधितान्तरङ्घः कुतोऽसि कस्त्वं वद मां श्रुत्वे दिशप्रत्यवदत्समाधिनामास्मि वैश्यो हृदसर्ववित्तः पत्नी सुदाद्यैश्वगृहान्निरस्तथापि सोत्कण्डमिमान् स्मरामि अनेन साकं सुरधो विनीतो मुनिम् प्रणम्याः समाधिनाम गृहान्निरस्तोऽपि गृहादिचिन्तां करोदि सोत्कण्ठमयं महर्षे ब्रह्मैव सत्यं परमद्वितीयं मिथ्याज्जगत्सर्वमिदं च जाने तथापि मां बाधत एव राज्यगृहादिचिन्तावत तस्य हेतुम् ूचे तपस्वी शृणु भूपमाया सर्वस्य हेदुस्सगुणा गुणा सा बन्धञ्च मोक्षं च करोदि सैव सर्वेऽपि माया गुना सर्वे वशगा भवन्ति ज्ञानं हरेरस्ति विधेश्च किन्तु क्वचित् कदाचिन्मिलितौ विमोकितौ कस्त्वमरेणुकस्त्वमेवं विवादं किल चक्रतुस्म ज्ञानन्द्विधैकं त्वपरोक्षमन्यत्परोक्षमप्येतदवेहि राजन् आद्यं महेश्या कृपया विरक्रिया भक्र्या महत्सङ्गमतच्चलभ्यम् यये ददाप्नो दिश सर्वमुक्तो ज्ञानन्द्वितीयं खलु शास्त्रवाक्यविचारतो बुद्धिमतैव लभ्यं देव्या कडाक्षैर्लभते जभुक्रिं मुक्रिं च सा केवलभक्रिगम्या सम्पूज्यतां दुर्गां कृत्वा प्रसन्नां स्वहृदं लभस्व श्रुत्वा मुनेर्वाक्यमुभौ महेशि पूजयामास भक्रिया वर्षद्वयान् दे भवतीं समीक्ष्य स्वप्ने सतोषावपितावतृप्तौ दिदृक्षया जाग्रति चापि भक्ता वाचे रतुर्द्वौ कठिनव्रतानि वर्षत्रयान्ते सुमुखीं प्रसन्नान् त्वां वीक्ष्यतौ तुष्टुवधुःप्रकृष्टौ दैवात्समाधिस्तदनुग्रहेण लब्ध्वा परं ज्ञानमवापमुक्तिम् भोगाविरक्तसुरधस्तु चीघ्रन्निष्कण्डकं राज्यमवाप राज्यमवापभूयः मन्वन्तरे भूपदिरष्टमे सावर्णिनामा च मनुर्बभूव त्वं भुक्तिकामाय ददासि भोगं मुमुक्षवे संसृतिमोचनं च किञ्चिन्न पृच्छामि परं विमूढो नमामि ते पादसरोजयुग्मम् ओ देवीनारायणीयम् दशकम् ट्वेण्टि सेवेन् दैत्यः पुरा कश्चन दुर्गमाख्यः प्रसादिधात् पद्मभवात्तपोभिः अवैदिकं वैदिकमप्यगृह्णान् मन्त्रं समस्तन् विविशज्जयिषी वेदे गृहीते दिधिजेन विप्राश्रुति स्थिरा विस्मृतवेदमन्त्राः साङ्ख्यानि कर्माण्यपि नैव चक्रुः वेदाध्ययना बभूव हृदेषु मन्द्रेष्वखिलेषु पूजा यज्ञादिभूमौ न कृतं मनुष्यैः सुरा अशक्तास्तदलाभखिन्ना दैत्येन युद्धे बलिना जिदाश्च त्यक्त्वा दिवन्दे गिरिगह्वरेषु निरीयवर्षाणि बहूनि निन्युः भावा शुष्क वृषेरवाधरणी चुष्कलाशया दर्शनी पीड़िता भूथाताद्रिमे ध्यानपूजा नुद्दिभजन प्रसादयासरनेकोब्रह्मांडकर्तमलार्तिहंत्री दृष्टा दयार्द्राक्षिसदा त्वमेभिकृपाश्रुवर्षैर्नवरात्रमुर्व्यां जलाशयान् पूर्णजलांश्च कर्त जनाश्च दाक्षीत्यभिदान् ददुस्ते क्षुत्पीडितानाञ्च चराचराणां सर्वत्र नानाविधमन्नमिष्टम् स्वादूनि मूलानि फलानि चा दाशाकम्भरीधिप्रधिदा तदोभूः दैत्यस्तु विज्ञायसमस्तमस्त्रशस्त्रैः स सैन्यः प्रहरन् वपुस्थे रणाङ्गणे सा यगविद्धगात्रः स च सुरात्मा खलु वेदमन्त्राञ्चिरं पठं स्वामभिवीक्षमाणः गदायुराविश्य परात्मनित्वय्यवापमुक्तिं मिषदां सुराणां वेदान् कृदा नब्जभवानने पुनश्च निक्षिप्य जगत् सुरक्षां तुष्टा करुणार्द्रनेत्रा भक्तस्य वै दुर्गदिनाशिनी त्वं सुखप्रदा दुर्गमहन्द्रिमातः दुर्गे दिनाम्ना विदिता च लोके विचित्ररूपास्तव देवि लीलाः कोऽप्यस्ति चित्ते मम दुर्गमोऽयं ज्ञाधस्त्वया नैव मया दुदेवि यः सन्ततन् दृह्यदिमेतमाशु संहृत्य मां रक्ष नमो नमस्ते ओ देवीनारायणीयम् दशकम् ट्वेण्टि ऐट् निजघ्नतोर्विष्णुहरौ ऋणान्ते स्वेनैव वीर्येण जयोऽयमेवन्तौ मोहितौ दर्पमवापतुश्च तदोविधिस्तौ तरुवद्विचेष्टौ तेजो विहीनावभिवीक्ष्यभेदः निमीलिताक्षः सकलं विचिन्त्य जानन् सुधा दक्षमुखानुवाच पुत्राभरिं पश्यद धूर्जडिञ्च यौ नष्टचक्री खलु शक्रिकोपात् ततो जगद्भारयुतोऽस्मि यूयं शक्तिं तपोभिः कुरुत शक्ते शक्तेः प्रसादेन हि पूर्ववत्तौ स्यादां यशो वृद्धिरणेन व शक्ति यतरमोमेद्कुल व्याता शक्रे कटाक्षईर्जगदस्त भद्रमेव्याशु मद्रिमे दक्षाद्याजराध्य भक्ता निु दृष्टा पुरस्तैस्तु नु तात्वमार्थ भीत्यालमार्त्या च हृदं ददामि गौरी च लक्ष्मीश्च ममैव ते शम्भवे प्राग् हरये च दत्ते तौ शक्तिसाहाय्यदयव दैत्यान्निजग्नधुः सत्यमिदन्तु ताभ्याम् विस्मृतं शक्त्यवमानदोषाद्विनष्टचक्री खलु तावभूदा तौ पूर्ववत्स्तामिघशक्तिरेका जाये ददक्षस्य विष्णुः सर्वे स्वशक्तिं परिपूज्य मायाबीजादिमन्त्रान्विधिव जपन्तः विराट् स्वरूपं मम रूपमे दत्सच्चित्स्वरूपं च सदा स्मरेद प्रयाततुष्टा जगदां शुभं स्यादेवन् कारुण्यतस्ते गिरिशो हरिश्च शक्तावभूतानि च कर्म कर्तुम् माधकडाक्षामयि देपदन्तु मास्तु सर्वान् स्वधर्मान् करवाण्यभीदो भद्रह्म स्यात् सततन्नमस्ते ओ देवी नारायणीयम् दशकम् 29. नैन् अथैकदा दृश्यद दक्षगेहे शाक्दमहस्तच्च बभूव बाला विज्ञायते शक्तिमिमां जगत्सु सर्वेऽपि हृष्टा अभवन् क्षणश्च दक्षः स्वगेहापतिताञ्चकारनाम्ना सदीं पोषयति स्म सः स्मरन् वचस्थे गिरिशायकाले प्रदायतान् द्वौ समतोषयच्च एवं शिवशक्तियुधः पुनश्च बभूव गच्छत्सुदिनेषु दक्षः दैवाच्छिवद्वे श्रमवापदेहन् तत्पोषितं स्वं विजहौ दुःखेन कोपेन चहासतीति मुहुर्वदन्नुद्धृतधारदेहः बभ्राम सर्वत्र हरः सुरेषु पश्यत् सुशार्ङ्गी रुद्रां स सदी शरीरं विष्णुः शरौ श पेदुरमुष्य भूमौ शिव साशेश पेदुरी मे स्थला सर्वाणी तेज प्रथिता लोके इमान पूता भाई देवी पीढ़ा सर्वाघराि भाति त्वमेकमेव द्वयमित्रभिन्ननामानि धृत्वा खलु मन्त्रतन्त्रैः सम्पूज्यमाना शरणागतानाम् भुक्तिम् समाधिमग्नो भवदेशलोकशक्रिं विनाः विरसो लसश्च चिन्ताकुलमोहधियो विशीर्ण तोषामहारोगनिपीडिताश्च सौभाग्यहीना विहताभिलाषाः सर्वे सदोद्विग्नहृदो बभूवुः शिवोऽपिशक्र्यासहिधः करोति सर्वं वियुक्तश्च तया जड स्याद् मास्तु मे शक्तिवियोग दासोऽस्मि भूयो वरदे नमस्ते देवी देवीनारायणीयं दशकं तट्टि समाधिमग्ने गिरिशे विरिञ्चात्तपःप्रसन्नात् किल तारकाख्यः दैत्यो वरं प्राप्य विचित्य देवान् सबान्धवत्स्वर्गसुखान्यभुङ्क्ता वरैः सभर्गौ रसपुत्रमात्रवध्यत्वमाप्तोस्य च सर्वाधिपत्यं स्वबलं च मोहान्मत्तो भृशं शाश्वतमेव मेने नष्टाखिला श्रीहरये सुरास्ते निवेदयामासुरशेषदुःखं स चाहदेवा अनयेन नूनमुपेक्षते जननी कृपार्द्रा तद्विस्मृतेर्जातमिदङ्करेण यष्ट्या चया ताडयति स्वपुत्रं तामेव बालशनि ज्येष्ठदात्रीं सर्वापदसैव हरिष्यतीति श्रुत्वा मरास्त्वान्नुर्महेशि निशम्यतेषां श्रुतिवाक्यगर्भस्तुतिं प्रसन्ना विबुधां स्त्वमाद्ध अलं विषादेन सुरासमस्ताने हरिष्यामि भयं नृदं वः हिमाद्रिपुत्री विबुधास्तदार्तञ्जायेद गौरी मम शक्तिरेखा सा च प्रदेया वृषभ्वजाय तयोः सुतस्तन् विदि जञ्जभन्या यद्धन्निशम्यास्तभयेषु त्वं वर्णयन्तीनि च तत्त्वमेभ्यः प्रदर्शयामासिधविश्वरूपम् सहस्रशीर्षम् च सहस्रवक्त्रम् सहस्रकर्णम् च सहस्रनेत्रम् सहस्रहस्तञ्च सहस्रपादमनेकविद्युत्प्रभमुज्ज्वलम् च दृष्ट्वेदमीश्वर्यखिलैर्भियोक्त्रा त्वञ्चोपसंहृत्य विराट् स्वरूपं कृपावधि स्मेरमुखी उक्त्वाखिलं संसृति मुक्तिमार्गं सुरेषु पश्यत् श्रुत्वाद्रिमुख्यास्तव गीतमुच्चैर्देवा जपध्यानपरा बभूवुः अधैकताप्रादुरबुद्धिमाद्रौ शाक्तं महो दक्षगृहे यथा प्राक् क्रमेण बभूव कन्या सा पार्वतीदिप्रथिता जगत्सु हिमाद्रिणैषा च हराय दत्ता तयोः सुतस्कन्द इति प्रसिद्धः सतारकाख्यन्दिजन्निकत्य रक्षलोकानखिलान्महेशी दुर्वासस शापबलेन शक्रो नष्टाखिलश्रीर्वचनेन विष्णोः क्षीरोदधिं सा सुरदेवसङ्घो शावान्मुनेर्देवगणान् विमोच्य कडाक्षतस्ते हरिमा बभूयः त्वं सर्वशक्तिर्न जितासि केनाप्यन्याञ्जयस्येव सदा विभासिभक्त्रस्य नमो नमस्ते ओ